श्रीमद्भागवत्महापुराणम् एकादशस्कन्धम् अथैकविंशोऽध्यायः गुणदोषव्यवस्था का स्वरूप और रहस्य श्रीभगवान् वाच एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकानम् शुद्रान् कामासलैः प्राणैजुषन्तः संसरन्ति ते स्वे स्वेधिकारे यानिष्ठा च गुणपरिकर्तितः विपर्ययस्तु दोषः स्याद् उभयोरे च निश्चयः शुद्धशुद्धिविधीये ते समानेष्वपि वस्तुषु द्रव्यस्य विचिकित्सार्थम् गुणदोषौ शुभाशुभौ धर्मार्थम् व्योहारार्थम् यात्रार्थम् इति चानघ दर्शितोऽयम् मया चारो धर्ममुद्वहताम् धुरम् भूम्यग्भग्यम् न निलाकाशा भूतानाम् पञ्चधातव आब्रह्मस्थावरादीनाम् शारीरा आत्मसंयुता वेदेन नामरूपाणि विषमाणि समेष्वपि धासुतोद्धव कल्प्यन्ते एतेषां स्वार्थसिद्धये देशकालादिभावानाम् वस्तूनां मम सत्तम गुणदोषौ विधेये ते नियमार्थम् हि कर्मणाम् अकृष्णसारो देशानाम् अब्रह्मण्यो शुचिर्भवेत् कृष्णसारोऽप्यसौ वीरकीकटा संस्कृते रिणम् कर्मण्यो गुणवान्कालो द्रव्यतः स्वत एव वा यतो निवर्तते कर्म स दोषो कर्मकस्मितः द्रव्यस्य सिद्ध्यसिद्धे च द्रव्येण वचनेन च संस्कारेणाथकालेन महत्वाल्पतयाथवा सत्यासक्त्या बुद्ध्या समृद्ध्या च यदात्मने अघम् कुर्वन्ति यथा देशावस्थानुसारतः धान्यदास्थितन्तूनां रसतैजसमणां कालवायव्यग्निमृतो यै पार्थिवानां जुतायुतैः अमेध्यलिप्तम् यदि येन गन्धं लेपं व्यपोहति भजते प्रकृतिं तस्य तच्छौचं तावदिश्यते स्नानदानतपोवस्थां वीर्यसंस्कारकर्म मस्मृत्या चात्मनः शौचं शुद्धकर्माचरे द्विजः मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणं धर्मसंपद्यते सम्पद्यते षड्भिरधर्मस्तु विपर्ययः क्वचिद्गुणोऽपि दोषशां दोषोऽपि विधिना गुणः गुणदोषार्सनेमं तद्भिधा तद्भिधामेव समानकर्मां चरणं पतितानां च पातकम् औत्पत्तिको गुणसङ्गो न शयानपतत्यरः यतो निव यतो निवर्तेत विमुच्येत ततस्ततः एष धर्मो नृणां थेम शोकमोहभयापः <laughs> विषयेषु गुणाध्यासान् पुंसा सङ्गन्ततो भवेन् सङ्गात्तत्र भवेत्काम कामादेव कलिर्नृाम् क्रोधं तमस्तमनु वर्तते। तमसाग्रस्यते पुंसश्चेतना व्यापुनिर्धृतम् तया विरतः जन्तु जन्तुशून्याय कल्पते ततोऽस्य स्वार्थभिभ्रंसो मूर्च्छितस्य मृतस्य च विषयाभिर्निवेशेत् विषयाभिर्निवेशेन नात्मानम् वेद न परम् वृक्षजीविकया जीवन् व्यर्थम्भ्यस्ते यश्वसन् फलश्रुतिरियम् नृणाम् न श्रेयो रोचनम् परम् श्रेयोविवेक्षया प्रोक्तम् यथा भय सज्जरोचनम् उत्पत्स्यैव हि कामेषु प्राणेषु स्वजनेषु च आसक्तमनसो मर्त्या आत्मनो नर्सहेतुषु